गणेशपुराणं क्रीडाखण्डम् अध्यायम् वन् श्रीगणेशाय नमः श्रीमहासिद्धिमहाबुद्धिलक्षलाभनग्नभैरवराजचरणाभ्यां नमः सकलगणेशगुरुभ्यो नमः मुनय ऊचुः सम्यगाख्यानमाख्यातं त्वया सोदमहा मदे सादरं श्रुतमस्माभिर्न च तृप्तिं गयं यथा न तृप्यधे जन्तुरन्नमश्नन् दिने दिने अन्यत्कथान्तरं ब्रूहि येन तृप्यामहे वयं शोद उवाच उक्तम् चोपासनाखण्डं क्रीडाखण्डं वदामि वः यथा कृतं गणेशेन नानादैत्यविहिंसनं साधुद्विजगवां चैव पालनं परमादराद तदकं सम्प्रवक्ष्यामि श्रूयतां स्थिरचेतसा मुनय ऊचुः यावद् यावत् कथ्यते तत्पुराणं तावत् तावद वर्धते श्रोतुमीक्षा तस्मात् सम्यक् कथ्यतां सर्वलोकः संसाराब्धैर्येण सद्य प्रमुच्येत् सुद उवाच यदुक्तं ब्रह्मणा पूर्वं व्यासायामिद तेजसे भृगुणा सोमकान्ताय तदे तद्वो ब्रवीम्यहं व्यास उवाच पाद्मयोनिवद विभो गणेशचरितं शुभं यद्यद्रूपं समास्ताय यद्यच्च कृतवान् विभुः कृपावदा त्वया मम वाक्यादुदीर्यताम् उपासनाखण्डमिदं श्रुत्वा तृप्तिं नयामि च येन येनावतारेण यं यं दैत्यं महाबलम् अहनद्विकडस्तत्तत्कर्मस्य वक्तुमर्हसि तदीयं बालचरितं लीला नानाविधा अपि श्रुवादना भोज मनो निवृतिमेश्यूत उवाच श्रुवा नाध्नावाच कमलासन कथा नाध दिव्यां व्याय परीपृते ब्रह्मवाच साधु पृष्ठ हृदयानन्दकारिणा विवर्धदे प्रीतिसादरे श्रोतरि प्रभो अवाच्यमपि वक्तुं मे पुण्यश्लोके शक्तिर्गरी शक्तिर्गरीयसी यद्वद्वक्तु श्रोदरि कथ्यताम् इदानीं सर्वमाख्यास्ये गणेशचरितं तव नानावतारान् कृत्वा स भूभारं हृतवान् विभुः हत्वा नानाविधान् दैत्यान् स्वस्थाने स्थापयन् सुरान् साधूनां पालनरतो दुष्टनिर्मूलनं क्षमः इतिहासं शृणु मुने गणेशाख्यानसंश्रयं विष् तरस्रवसा प्रोक्तं श्रवणात्सर्वकामदं विष्णुरुवाच युगे युगे भिन्ननाम गणेशो भिन्न भिन्नवाहनः भिन्नकर्मा भिन्नगुणो भिन्न दैत्यापहारकः सिंहारूढो दशभुजः कृदेनामना विनायकः तेजोरूपी महाकायः सर्वेषां वरदो वशी त्रेदायुगे बर्हिरूढषड्भुजोऽप्यर्जुनच्छविः मयूरेश्वरनाम्ना च विख्यातो भुवनत्रये द्वापरे रक्तवर्णो स च गुरूढश्चतुर्भुजः गजानन ख्यातः पूजिदः सुरमानवेः कलौदो धूम्रवर्णोऽसावश्वारूढो द्विहस्तवान् धूम्रकेदुरिधिख्यादो म्लयचानीकविनाश्यकृत यं यं स दैत्यं हन्ति स्म तदिदानीं ब्रुवे मुने अङ्गदेशीयनगरे रौद्रकेदुरभूद्विजः सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः समो जीवेनाग्निहोत्री सुरगोद्विजपूजकः ईश्वरोपासको नित्यं सर्वागमविशारदः यस्य पत्नी चारदाख्या रूपलावण्यशोभिता ईदृशी नाप्सरे हे मध्ये नाष्टा सुनायिका स्वपि यद्वस्त्रनिर्जितश्चन्द्रश्चिन्तया क्षयमीवान् अनेकदिव्याभरणायर्भासयन्दीधरातलं यथा नक्षत्रमालाभिर्भासदेव्योममण्डलं कदाचित् सागर्भवति शारदोत्पललोचना शारदा शारदे मासि शरच्चन्द्रसुशोभिदे शरीरतेजसा यस्या न प्राज्ञा यद किञ्चन दोहदान् पूरयत्येषं स कामयत्सदी एवं नवमेमासी नवमे मासि यमलौ सुषुवे सुतौ अधि कान्तरौ स्वान्दनन्दननावुभयोरुभौ आजानुबाहु दीर्घाक्षौ दृष्ट्वा प्रोवाच अद्याह मा नृणो जादो धन्यमद्यतपो मम वंशो धन्यो जनुर्धन्यं यत्पुत्रौ वीक्षितौ मया अर्घ्याद्यैर्द्विजवर्यान् सम्पूज्य च गणाधिपं स्वस्ति वाच्यं चकाराशुमातृपूजनपूर्वकम् भक्त्याभ्युदयिकं श्राद्धं चादकर्म करोद्विजैः सम्पूज्य ब्राह्मणान् भक्त्या ददौ दान्यनेकशः सुह्रदो मानयामास वासोरत्नधनादिभिः नानावादित्रिनिर्घोषैः शर्करां च गृहे गृहे दापयामास ताम्बूलं पुत्रजन्म सुनिर्वृतः यथा धान्यपरो योगी प्राप्य दशाहेतिदे सा वा कार्य द्विजपुङ्गवान् अप्र चैदयोर्नाम किं कार्यं द्विजसतमाः अधीतानागतज्ञानाद्विचार्य कथयन्तु मे ते नामनि अनयो ब्रह्मन्नन्वर्थे कुरू नो मदे यदि तद्वचनम् श्रुत्वा द्विजभक्तिरथो द्विजः स्वशाखोक्तेन विधिना नामनि विधते तथा ब्राह्मणाण्ढो जयामास सर्वांश्च नागरांस्तथा ववृधादेततस्तौ दु मेरुमन्दारसन्निभौ यदा कश्चाश्रितौ तालौ यथा वंशाङ्कुरौ बलाद् यत्र यत्र पदन्यासं कुर्वादेतौ यदृच्छया रसादल शेषस्य नमदे शिरः दृश्यते मण्डलं भानोऽस्तिष्ठतो शिरसि पित्रौ प्रदर्शयन्तौ तौ कौदुकानि भृशं तयोः कदाचिन्ना रथोकस्माद्रौद्रकेदुगृहं ययौ श्रुत्वा कीर्तिं बालकहो कौदुकादग्रहीतु तौ मोग्न्याघ्रायाङ्गमारोप्य पितरावदत्तयोः नारद उवाच श्रुत्वा कीर्तिं समायाधपुत्रयोरद्भुतां शुभाम् अग्रेभुतरा चापि भविष्यत्यनयोर्मुने महद्भाग्यं तव मुने यल्लब्धावीदृशौ सुतौ दृष्ट्वान्यो हर्षमायाधिका वार्ता स्वजनस्यः इत्याकर्ण्यशुभं वाक्यं नारदेन समीरिदं तावाहदुर्मुनिं नत्वा पितरौ नारदं तदा तव प्रसादाद् बह्वायुपुत्रयोरस्तु साम्प्रतम् अनुग्रहं कुरु तदा यथैतौ वीर्यवत्तरौ भवेतां लोकविख्यातौ सर्वज्ञौ रिपुदण्डिनौ क उवाच रुद्रके दोः शारदाया पुत्रयोर्भक्त्रिमीष्य सः पञ्चाक्षरीम् महाविद्यामुभयोरुपदिष्टवान् उवाच पुत्रौ कामारिरनया सम्प्रसाद्यताम् मस्तके भयहस्तम् च स्थाप्यानुष्ठानमादिशद जवमुक्त्वा तमामन्द्र्य रौद्रके दुम्महानिः तदस्त्वन्दर्दधे ब्रह्मन्नारदो दिव्यदर्शनः अन्तर्हिदे मुनौ तौ चावदतां पितरौ मुदा अनुष्ठानाय नवज्ञां ना भवद्भ्यां सम्प्रदीयताम् इति श्रीमन्महागाणेश्वरे महापुराणे क्रीडाखण्डे नारदोपदेशोन्नामप्रथमोऽध्यायः ओम्